ऋषिखां भ्रुकुटीं चास्य ददृश्युः सर्वपार्थिवाः ललाटस्थान् त्रिकूटस्थां गङ्गां त्रिपथगामिव दन्तान्सन्दशतस्तस्य कोपाददृशुराननं युगान्ते सर्वभूतानि कालस्यैव जिघत्सतः उत्पतन्तं तु वेगेन जग्राहैनं मनस्विनं भीष्म एव महाबाहुर्महासेनमिव ईश्वरः तस्य भीमस्य भीष्मेण वार्यमानस्य भारत गुरुणा विविधैर्वाक्यैः क्रोधं प्रशममागतः नातिचक्रामभीष्मस्य सहिवाक्यमरिन्दमः समुद्वृत्तो घनापाये वेलामिव महादधिः शिशुपालस्तु संक्रुद्धे भीमसेने जनाधिप नाकम्पतदा वीरः पौरुषे स्वे व्यवस्थितः उत्पतन्तं तु वेगेन पुनः पुनरविन्दमः न स तं चिन्तयामाससिंहः क्रुद्धो मृगं यथा प्रहसंश्चाब्रवीत् वाक्यं चेदि राजः प्रतापवान् भीम दृष्ट्वा भीमपराक्रमम् मुञ्चैनं भीष्म पश्यन्तु यावदेन न राधिपाः मत्प्रभावविनिर्दग्धं पतङ्गमिव वह्निना ततश्चेदिपतेर्वाक्यं श्रुत्वा तत्कुरु सत्तमः भीमसेनमुवाचेदं भीष्मो मतिमतां इति श्रीमहाभारते सभापर्वणि शिशुपालवधपर्वणि भीमक्रोधे द्विचत्वारिंशोऽध्यायः